हरि ओं श्री सीता रामचन्द्राभ्यां नमः अथ श्रीमद् वाल्मीकि रामायणे अयोध्याखण्डे चतुर्नवतितम स्वर्ग श्रीराम सीतां चित्रकूटशोभाम् अदर्शयत् दीर्घकालो शितस्तस्मिन् गिरो वरप्रिय वैदेह्याप्रियमाकाङ्क्षन् स्वं चित्तम् विलोभयन् अथ दाशरथ चित्रम् चित्रकूटम् अदर्शयत् भार्याम् अमृ सङ्काश शचेमेव पुरन्दरः न राज्यभंशनम् भद्रे न सुहृद्भि मनो मे बाधते दृष्ट्वा रमणीयम् इमम् गिरिम् पश्ये मम अचलम् भद्रे नानादीजगणयुतम् शिखरैखम् विभोद्विद्धै धातु मध्ये विभूषितम् केचिद्रजत संघाश केचिच्छतज सन्निभ पीतमाञ्जीश्च वर्णाश्च केचिन्माणीवरप्रभ पुष्पार्ककेतकाभाश्च केचिज्योतिरसप्रभ विराजन्ते चलेन्द्रस्य देशा धातु विभूषितः नाना मृगगणे श्री पितरे वृक्ष गणैर्भृतः अदुष्टिर्भ्रात्ययं शैलो बहु पक्षी समाकुलः आम्र जम्बः सनिर्लोधै प्रियाले पनसैर्धवै अङ्गोलैर्भवति निशै बिलवतीन्दुकवेणुभि कस्मर्यारिश्च वर्णै मधुकै वेत्रधन्वन धन्व न बीजकै पुष्पवधि प्रलोपेतै छायावद्भि मनोरमै एवम् आदिभिराकिरण श्रियं पुष्यत्ययम् गिरि चैलप्रस्थेषु रम्येषु किन्नरान् वन्दशो भद्रे रममाणान् मनस्विनः शाखावसक्तां षड्गाशे प्रवराण्यम्बराणि च पश्य विद्याधरत्रीणाम् ऋणो देशान् मनोरमान् जलप्रपातै उद्भेदै निष्पन्दैश्च क्वचित् क्वचित् स्रवद्भिर्भात्ययन् शैल स्रवन्मन्द इवद्विपीरणो गन्धान् नाना पुष्प भवान् घात तर्पणमभ्ये कन्नरम् न प्रहसयेत् यदिह शरदो नैकाय त्वया सार्धम् निन्दिते लक्ष्मणेन च वर्ध्यामि प्रदर्शति बहु पुष्पे फले रम्ये तानादी जगणायुते विचित्रे शिखरे यस्मिन् हृतवानस्मि भामिनि अनेन वनवासेन पुण्यप्राप्तम् फलद्वयम् पितुश्चान्द्रुण्तधर्मे भरतस्य प्रियम् तथा वैदेही रमसे क्वचित् चित्रकूटे मया सह पश्यन्ती विविधान् भावान् मनोवाकाय सम्मताम् इदम् एव अमृतम् प्राहु राज्ञी वनवासं वनवासम् कृत्य मे प्रपितामहः शिलाशैलश्च शोभन्ते विशालाय शतशोभितः बहुलाय बहुलैर्वर्णे नीलपीतसितारुणे निशिभान्त्य चलेन्द्रस्य उताश न शिखाइ ओषध्य स प्रभा लक्ष्म्या भ्राजमाना सहस्र च केचिय केचिदुद्यान सन्नी केचिदेक शिला भाति पर्वत भामिनी भिस्व वसुधा भाति चित्रकूट समु चित्रकूटस्कूटों दृश्य से कुस्थ ग सुन्नाग भूर्ज पत्रोरछा कामीना शरा पश्य कुशेषय जलायुतान् हृदिता चापि विद्धा च दृश्यन्ते कमलस्रज कामिभिते पश्य फलानि विविधानि च वसोकसारं अतित्ये अतिथ्यैवोत्तरान् कुर्वन् पर्वतश्चित्रकूटोऽसौ बहुमूलः फलोदकः कालं वनिते विजरीवां त्वया च सीते स लक्ष्मणेन रतिं प्रपत्ये कुलधर्मवर्धिनीं तां पथि स्व नियमे परिस्थिते श्रीमन् रामायणे वाल्मीकि अधिकारी अयोद्याकाण्डे चतुर्नवतितमः सर्गः श्री सीतारामचन्द्रार्वणमस्तु